तयवश्धतमोध्याय वैशंपा न उच कीपुत्रु जातेषु धृतराष्त्त्मजु मद्रराजसुता पांडुमचनम्रवीत न मेस्ति सन्तापो विगुणे पर चिताधार्ष नृपते जातम् पुत्रशतम् तथा श्रुत्वा न मे तथा दुःखमभवत् कुरुनन्दन इदम् तु मे तुल्यतायाम पुत्रता दिष्ट्यात्विदानीम् भर्तुर्मे कुन्त्यामप्यस्ति सन्ततिः यदि त्वपत्यसन्तानम् कुर्यादनुग्रहो मे स्यात् तव भवेत् संरम्भो हि सपत्नीत्वात् वक्तुम् कुन्तिसु ताम् प्रति यदि तु त्वम् प्रसन्नो मे स्वयमेनाम् प्रचोदय पाण्डुरुवाच ममाप्येष सदा माद्रिहृद्यर्थः परिवर्तते न तु त्वाम् प्रसहे वक्तुम् इष्टानिष्टविवक्षया तवत्विदम् मतम् मत्वा प्रयतिष्याम्यतः परम् मन्ये ध्रुवम् मयोक्तासा वचनं वचनम् प्रतिपत्स्यते वैशम्पायन उवाच ततः कुन्तीम् पुनः पाण्डुर्विविक्त इदमब्रवीत् कुलस्य मम सन्तानम् लोकस्य च कुरु मम चापिण्डनाशाय पूर्वेषामपि चात्मनः मत्प्रियार्थम् च कल्याणि कुरु कल्याणमुत्तमम् यशसोऽर्धाय प्याधिपत्यमिन्द्रेण यज्ञैरिष्टम् यशोऽर्थिना तथा मन्त्रविदो विप्रास्तपस्तप्त्वात् सुदुष्करम् गुरूनभ्युपगच्छन्ति यशसोऽर्धाय भाविनी तथा राजर्षयः सर्वे ब्राह्मणाश्च तपोधनाः चक्रुरुच्चावचम् कर्म यशसोऽर्धाय दुष्करम् सा त्वम् माद्रीम् प्लवेनैव तारयैनाम निन्दिते विभागेना पराम् कीर्तिमवाप्नुहि वैशम्पायिनौ वाच एवमुक्त्वा ब्रवीन् माद्रीम् सकृच्चिन्तयदैव तम् तस्मात्ते भवितापत्यमनुरूपमसंशयम् ततो माद्रीविचार्यैवम् जगाम मनसाश्विनौ तावागम्यत्सुतौ तस्याम् जनयामासतुर्यमौ नकुल सह देंेण प्रतिम भुवि तथा तावा यमौ वागुवाचाशरीणी सत्गुणोपेतना विति भासतस्तेजस्रविण संपदा ना चक्रिरे शतश्रृंग निवासीन भक्तिया कर्मण चीर्षा पते ज्येष्ठम् युधिष्ठिरेत्येवम् भीमसेनेति मध्यमम् अर्जुनेति तृतीयम् च कुन्तीपुत्रा न कल्पयन् पूर्वजम् न कुलेत्येवम् सह प्रीतिमानसाः अनुसंवत्सरम् जाता अपि ते कुरु सत्तमाः महासत्त्वा महावीर्या महाबलपराक्रमाः पाण्डुर्दृष्ट्वा देवरूपान् देवरूपान्महौजसः मुदं परमिकाम् लेभे ननन्द च नराधिपः ऋषीणामपि सर्वेषाम् शतशृङ्गनिवासिनाम् प्रिया बभूवुस्तासाम् च तथैव मुनियोषिताम् कुन्तीमथ पुनः समचोदयत् तमुवाच पृथा राजन् रहस्युक्ता तदा सती उक्ता सकृद्वन्द्वमेषा लेभेतेनास्मि वञ्चिता बिभेम्यस्याः परिभवात् कुस्त्रीणाम् गतिरीदृषी नाज्ञासिषमहम् मूढा द्वन्द्वाह्वाने फलद्वयम् तस्मान्नाहम् नियोक्तव्ययैषोऽस्तु वरो मम एवम् पाण्डोः सुताः पञ्च देवदत्तामहाबलाः सम्भूताः कीर्तिमन्तश्च कुरुवंशविवर्धनाः शुभलक्षणसम्पन्नाः सोमवत्प्रियदर्शनाः सिंहदर्पा महेश्वासाः सिंहविक्रान्तगामिनः सिंहग्रीवा मनुष्येन्द्रा ववृधुर्देवविक्रमाः विवर्धमानास्ते तत्र पुण्ये हैमवते गिरौ विस्मयम् जनयामासुर्महर्षीणाम् समेयुषाम् जातमात्रानुपादाय शतशृङ्गनिवासिनः पाण्डोः पुत्राणमन्यन्त तापसा स्वानिवात्मजान् ततस्तु वृष्णयः सर्वे वसुदेवपुरोगमाः पाण्डुशापभयाद्भीतः शतशृङ्गमुपेयिवान् तत्रैव मुनिभिः सार्धम् तापसोऽभूत्तपश्चरन् शाकमूलफलाहारस्तपस्वी नियतेन्द्रियः ध्यानयोगपरो राजा बभूवेति च वादकाः प्रब्रुवन्ति स्म बहवस्तच्छ्रुत्वा शोककर्षिताः पाण्डोः प्रीतिसमायुक्ताः कदा कथयन्तस्ते वृष्णयः सह बान्धवैः श्रुत्वा सर्वे हर्षसमन्विताः सभाजयन्तस्तेऽन्योऽयम् वसुदेवम् वचोऽब्रुवन् वृष्णय ऊचुः न भवरेन्क्रियाहीनाः पुत्रा महायशः पाण्डोः प्रियहितान्वेषि प्रेषय त्वम् पुरोहितम् वैशम्पाय नोवाच वसुदेवस्तधेत्युक्त्वा युक्तानि च कुमाराणाम् पारिबर्हाण्यनेकषः कुन्तीम् माद्रीम् च सन्दिश्य दासीदासपरिच्छदम् काश्च रौप्यम् हिरण्यम् च प्रेषयामास भारत तानि सर्वाणि संग्रुह्य। प्रययौ स तमागतं तमागतम् काश्यपं काश्यपम् वै पुरोहितम् परपुरञ्जयः वृथा माद्री वसुदेवम् प्रशंसताम् ततः पाण्डुः क्रियाः सर्वाः पाण्डवानामकारयत् गर्भाधानाधिकृत्यानि चौलोपनयनानि च काश्यपः सर्वमुपाकर्म च भारत चौलोपनयनादूर्ध्वम् वृषभाक्षा यशस्विनः वैदिकाध्ययने सर्वे समपद्यन्तपारगाः शर्यातेः पृषतः पुत्रः नाम परन्तपः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 गदायाम् पारगो भीमस्तोमरेषु युधिष्ठिरः असि चर्मणि निष्णातौ यमौ सत्त्ववताम् वरौ धनुर्वेदे गतः सव्यसाची परंतपः सुखेन समनुज्ञातो मत्समोऽयमिति प्रभो अनुज्ञायततो राजा शक्तिम् खड्गम् तथाशरान् धनुश्च ददताम् श्रेष्ठः तालमात्रम् महाप्रभम् विपाठक्षुरनाराचान गृध्रपत्रान् अलङ्कृतान् ददौ पार्थाय संहृष्टो महोरगसमप्रभान् अवाप्य सर्वशस्त्राणि मुदितो वासवात्मजः मेने सर्वान्महीपालान् अपर्याप्तान् स्वतेजसः एकवर्षान्तरास्त्वेवम् परस्परमरिन्दमाः अन्ववर्धन्तपार्थाश्च माद्री मतृपुत्रो तथ पंचशतम चुव वंश विवर्धना वृधिरल कालेवनीर महाभार आदिपर्वि संभवपर्वि पांडवोत्पतोकशतमोध्याय